अथैकोनशततमः सर्गः महोदरमहापार्श्वौ हतौ दृष्ट्वा स रावणः वीरे विरूपाक्षे महाबले आविवेशमहान् क्रोधो रावणम् तु महामृधे सूतम् सञ्चोदयामास वाक्यम् चेदमुवाचः निहतानाममाक्यानाम् रुद्धस्य नगरस्य च दुःखमेवापनेष्यामि हत्वा तौ रामलक्ष्मणौ रामवृक्षम् रमेहन्मि सीता पुष्पफलप्रदम् प्रशाखा यस्य सुग्रीवोजाम् भवान् कुमुदो मैन्दश्च अङ्गदो हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः स दिशो दशघोषेण रथः रथो महान् नादयन् प्रययौ तूर्णम् राघवम् पूरितातेन शब्देन स नदीगिरिकानना सञ्चचालमही सर्वात्रस्तसिंहमृगद्विजा तामसं सुमहाघोरम् चकारास्त्रम् सुदारुणम् निर्ददाहकपीम् सर्वांस्ते प्रपेतुः समन्ततः उत्पपातरजो भूमौतैर्भग्नैः सम्प्रधावितैः न हि तत्सहितुम् शेकुर्ब्रह्मणा निर्मितम् स्वयम् रावणस्य शरोत्तमैः दृष्ट्वा भग्नानि शतशो राघवः ततो राक्षसशार्दूलो विद्राव्यहरिवाहिनीम् सददर्श ततो रामम् तिष्ठन्तमपराजितम् लक्ष्मणेन सह भ्रात्रा विष्णुना वासवम् यथा आलिखन्तमिवाकाशमवष्टभ्यमहद्धनुः पद्मपत्रविशालाक्षम् दीर्घबाहुमरिन्दमम् ततो रामो महातेजाः सौमित्रिसहितो बली बाणरांश्चरणे भग्नानापतन्तम् च समीक्ष्य राघवो हृष्टो मध्ये जग्राहकार्मुकम् विस्फारयितुमारेभे ततः सधनुरुत्तमम् महावेगम् महानादम् निर्भिन्दन्निव मेदिनी रावणस्य च बाणौघै रामविस्फारितेन च शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा तयोः शरपथम् प्राप्य रावणो राजपुत्रयोः सरभौ च यथा राहुः समीपे शशिसूर्ययोः तमिच्छन् प्रथमम् योद्धुम् लक्ष्मणो निशितैः शरैः मुमोच धनुरायम् यशरानग्निशिखोपमान् तान्मुक्तमात्राणाकाशे लक्ष्मणेन धनुष्मता बाणान् बाणैर्महातेजा बाना रावणः प्रत्यवारयत् एकमेकेन बाणेन त्रिभिः स्त्रीम् दशभिर्दशा लक्ष्मणस्य प्रचिच्छेददर्शयन् पाणिलाघवम् अभ्यतिक्रम्य सौमित्रिम् रावणः समितिञ्जयः आससादरणे रामम् स्थितम् शैलमिवा यथजक्षर वर्षाणि रावणो राक्षसेश्वरः शरधारास्ततो रामो रावणस्य धनुश्च्युताः दृष्ट्वैवापतिताः शीघ्रम् भल्लाम् जग्राहसत्वरम् तान् छरौघाम्स्ततो भल्लैस्तीक्ष्णैश्चिच्छेदराघवः दीप्यमानान् महाघोराञ्छरा नाशीविशोपमान् राघवो रावणम् तूर्णं रावणो राघवम् तथा अन्योन्यम् विविधैस्तीक्ष्णैः शरवर्षैर्ववर्षतुः चेरतुश्च चिरम् चित्रम् मण्डलम् सव्यदक्षिणम् बाणवेगात् समुत्क्षिप्तावन्योन्यमपराजितौ तयोर्भूतानि वित्रेषु युगपत् सम्प्रयुध्यतोः रौद्रयोः सायकमुचोर्यमान्तकनिकाषयोः सततम् विविधैर्बाणैर्बभूवगगनम् तदा घनैरिवातपापापापापापापापापापापायै विद्युन्मालासमाकुलैः गवाक्षितमिवाकाशम् बभूवशरवृष्टिभिः महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः शरान्धकारमाकाशम् चक्रतुः परमम् तदा गतेऽस्तन्तपने चापि महामेघा विवोत्थितौ तयोरभून्महायुद्धमन्योऽन्यवधकाङ्क्षिणोः अनासाद्यमचिन्त्यम् च वृत्रवासवयोरिव उभौ हि परमेश्वासा बुभौ युद्धविशारदौ उभावम् मुख्या बुभौ युद्धे विचेरतुः उभौ हि येन व्रजतस्तेन तेन शरोर्मयः ऊर्मयो वायुना विद्धा जग्मुः ततः संसक्तहस्तस्तु रावणो लोक रावणः नाराचमालाम् रामस्य ललाटे प्रत्यमुञ्चत रौद्रचापप्रयुक्ताम् ताम् नीलोत्पलदलप्रभाम् शिरसाधारयद्रामोऽ न व्यथामभ्यपद्यता अथ मन्त्रान् अपि जपन् शरान् भूयः समादाय रामः क्रोधसमन्वितः मुमोच च महातेजाश्चापमायम् यवीर्यवान् तान् शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः ते, चिक्षे ते महामेघसङ्काशे कवचे पतिताः शराः अवध्ये राक्षसेन्द्रस्य नव्यथाञ्जनयस्तदा पुनरेवाथ तम् रामो रथस्थम् राक्षसाधिपम् ललाटे परमाण सर्वास्त्रकुशलिन ते सर्वास्त्र भी बाणा पंच शीर्षाइवरगासनो विशुभूमि रावण प्रतिकूलिता निहत्य राघवशास्त्र रावण आसुरं आसुरम सुमहाघोरमस्त्रदुश्चकार सिंहव्याघ्रमुखांश्चापि कङ्ककोकमुखानपि गुरुध्रश्येन मुखांश्चापि शृगालवदनांस्तथा ईहामृगमुखांश्चापि व्यादितास्यान् भयावहान् पञ्चास्यान् लेलिहानांश्च ससर्जनिशिताञ्चरान् शरान् खरमुखांश्चान्यान् वराहमुख संश्रितान् श्वानकुक्कुटवक्त्रांश्च मकराशी विषाननान् एतांश्चान्यांश्च मायाभिः ससर्जनिशिताञ्छरान् रामम् प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् आसुरेण पावकोपमः अग्निदीप्तमुखान् बाणांस्तत्र सूर्यमुखानपि चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ग्रहण क्षत्र महोल का मुख संस्थिताजिवोपा ससर्ज विविधाचरा तेरावणश राघोरा राघवास्त्र सहता विलय जग्म जघ्मश्च्रश तदस्त्र दृष्ट् राणा हृष्टा नेदुस्ततः सर्वे कपयः का कामरूपिणः सुग्रीवाभिमुखा वीराः सम्परिक्षिप्य राघवम् ततस्तदस्त्रम् विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिःसृतम् मुदान्वितो दाशरथिर्महात्मा विने दुरुच्चैर्मुदिताः कपीश्वराः इत्यार्षे श्रीमद् आदिकाव्ये युद्धकाण्डे एकोनशततमः सर्गः